विग्रह अमराधीश्वर अगणितगुणगण अमृत शिवा अद्भुत अगणितगुणगण अमृत शिवा आनन्दामृत आश्रितरक्षक आत्मानन्द महेश इन्दुकलाधर इन्द्रादिप्रिय सुन्दररूप सुरेश शिवा इन्दुकला इन्द्रादिप्रिय सुन्दररूप सुरेश शिवा ईश सुरेश महेश जनप्रिय केशवसेवित कीर्तिशिवा ईश sambhasada shiva sambhasada shiva sambhasada shiva sambha shiva sambhasada shiva sambhasada shiva sambhasada shiva, sambha shiva, sambha shiva sambha shiva uragade priya bhushan shankar taraka vinasha nadesa shiva पुरगादिप्रियभूषण शङ्कर हरकविनाश नटेश शिवा ऊर्जितदानवनाश परात्पर आर्जितपापविनाश शिवा ऊर्जितदानवनाश परात्पर आर्जितपापविनाश शिवा ऋग्वेतश्रुतिमौलिविभूषण शिवा ऋग्वेदश्रुतिमौलिविभूषण रविचन्द्रात्रिनेतशिवारूपमनाति प्रपञ्चविलक्षण कापनिवारण तत्त्वशिवरूपमनाति प्रपञ्चविलक्षण कापनिवारण तत्त्वशिव साम्ब सदा शिव लिंग स्वूप सभेश बुध प्रिय मंगलमूर्ति महेश शिव लिंग स्वरूप सभेश बुध प्रिय मंगलमूर्ति महेश शिव लुताधीश्वररूपप्रियशिव वेदान्तप्रियवेद्यशिवा लुताधीश्वररूपप्रियशिव वेदान्तप्रियवेद्यशिवा एकानेक सर्वेश जनप्रिय भोगादिप्रियपूर्णशिवा एकानेक ऐश्वर्याचित छिन्मय चेत्कन सच्चिदानन्द महेश शिव ऐश्वर्याचित छिन्मय चेत्कन सच्चिदानन्द पौरगविभूषण रिङ्कार प्रिय ईश शिवा ओङ्काराधि पौरगविभूषण रिङ्कार प्रिय ईश शिवा औरसलाळित गौरीश सहित गिरीश शिवा औरसलाळित गौरीश सहित गिरीश अम्बरवास चिदम्बरनायक कुम्बुरु नारद सेव्य शिवा अम्बरवास चिदम्बरनायक कुम्बुरु नारद सेव्य शिवा आहार प्रियादिगिरीश्वर ओगादि प्रिय पूर्ण शिवा आहार प्रियादिगिरीश्वर ओगादि प्रिय पूर्ण साम्ब साम्ब कमलासन वर कैलासाुणासागर शान्त शिवा कमलासन वर कैला साधिक करुणा सागर शांत शिवा खड्गश शूल मृगटंक धनुर्धर विशेष शिव खड्गशल धनुर्धर विक्रम रूप विशेष शिव गङ्गागिरिजा वाल्लभगुणहित शङ्कर सर्वजनेश शिवा गङ्गागिरिजा वल्लभगुणहित शङ्कर सर्वजनेश शिवा कातक भञ्जन पातकनहशन बोधस्वरूप पूर्ण शिव साम्ब सदा शिव साम्ब सदा सदा शिव सांहस्वरूपा नन्दवनाश्रय वेद वेदान्तस्वरूप शिव न्तस्वरूपानन्दवनाश्रय वेदवेदान्तस्वरूप शिव चण्डविनाशन सकलजनप्रिय मण्डलाधीशमगेश शिव चण्डविनाशन सकलजनप्रिय मण्डलाधीशमगेश शिव बद्धकिरीटसुकुण्डलाधिप्रियपुत्र बथ किरीटसुकुण्डलादिप्रियपुत्र प्रियभुवनेश शिवा जन्म जरा मरणादिविनाशन कल्मषविरहित कान्तशिवा जन जरा मरणादिविनाशन कल्मष विरहित कान्तशिवा झङ्काराश्रुत भृङ्गिरिटीश्वर ओङ्कारेश विश्वेश शिव झङ्काराश्रुत भृङ्गिरिटीश्वर ओङ्कारेश विश्वेश शिव ज्ञानविनाशक निर्मल दीनजन प्रियदिप्त शिवा ज्ञानाज्ञानविनाशक निर्मल दीनजन प्रियदिप्त शिवा टङ्कार्यावृतधारणसत्वर किङ्करसे व्यक्किरीट शिवा टङ्कार्यावृतधारणसत्वर खङ्क स्वरूप सहस्र करोतम वागीश्वर वरदेव शिवा खङ्क स्वरूप सहस्र करोतम वागीश्वर वरदेव शिवा विनाशन दाडिमभूषण अम्बरवास चिदेक शिवा डम्बविनाशन दाडिमभूषण अम्बर वास चिदेक शिवा ढं निश्चल तुण्डि विनायक सेव्य शिवा धमरुक धरणि निश्चल तुण्डिविनायक सेव्य नलिनविलोचन नटन मनोहर अळिकुलभूषण अमृत शिवा नळिनविलोचन नटन मनोहर अळिकुलभूषण अमृत शिवा नित्यस्वरूप निजेश शिवा तत्त्वमस्यादि नित्यस्वरूप निजेश Shambho sada Shiva Shambho sada Shiva Shambho sada Shiva Shambho <laughs> Shiva Shambho sada Shiva Shambho sada Shiva Shambho sada Shiva Shambho Shiva जङ्गम भुवन विलक्षण व्यापकवरमुनिसेव्य शिवा स्थावर जङ्गम भुवन विलक्षण व्यापकवरमुनिसेव्य शिवा दन्तिविनाशन नलिन मनोहर चन्दनलेपनशरणशिवा दन्तिविनाशन नलिन मनोहर चन्दनलेपनशरण शिवा धरणी धर धर, धर धवळ विभासित दनाधिपसक वरद शिवा धरणी धर धर धवळ विभासित दनाधिपसक वरद शिवा नानामणि गणभूषण निर्गुण नत जन पोषण नाथ शिवा नानामणि गणभूषण निर्गुण नत पोषण नाथ शिवा Om sada shiva sambha sada shiva sambha sada shiva sambha shiva sambha sada shiva sambha sada shiva sambha sada shiva sambha shiva पन्नगभूषण परमानंद परेश पार्वती नायक पन्नग भूषण परमानंद परेश शिवाल विलोचन भानुकोटि प्रभ हाला हल धर अमृत शिवा फाल विलोचन भानुकोटि प्रभ हाला हलधर अमृत शिवा बन्धविमोचन धृतचर्माम्बर स्कन्दादिप्रिय कनकशिवा बन्धविमोचन धृतचर्माम्बर स्कन्दादिप्रिय कनकशिवा भस्मविलेपन भव भयभञ्जन विस्मयरूप विशेष शिवा भस्मविलेपन भव भयभञ्जन विस्मयरूप विशेष शिवा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 थ नाशन मथुरा नायक चर्म विभूषण साक्षिशिव मथनाशन मथुरा नायक चर्म विभूषण साक्षिशिव यति जनहृदयवासी ईश्वर विधि विष्णुवाधिरेश शिव यति जनहृदयवासी ईश्वर विधि विष्णुवाधिरेश शिव रामेश्वर रमणीयमुखाम्बुज सोमेश्वर सुकृतेश शिवा लङ्काधीश्वर सेवित सुखकर लावण्यामृतरसित शिवा साम्ब सदा शिव साम्ब सदा शिव साम्ब सदा शिव साम्बिवादा वन जानन वर वासुषण वनमला विभूष शिव वन जानन वर वासुकी भूषण वनमला विभूष शिव शांतिस्वूपि प्रियसुन्दरकान्तिमते प्रियकाशीशिवा शान्तिस्वरूपादिप्रियसुन्दरकान्तिमते प्रियकाशी शिवा षण्मुखजनकसुरेन्दमुनि प्रियषाण्ड्गुण्यादि समेत शिवा षण्मुखजनक सुरेन्दमुनि सारार्नवनाशन शाश्वत साधु हृदि प्रियवास हर पुरुषोत्तम आनन्दामृत मुररिपुसेव्य मृडेश हरपुरुषोत्तम आनन्दामृत मुररिपुसेव्य मृडेश शिवा लालितभक्तजने शनिजयेश्वर कालीनटेश्वर काम शिवा लालितभक्तजनेशनिजयेश्वर कालीनटेश्वर काम क्षररूपादिप्रियान्वित सुन्दर साक्षि जगत्रय स्वामी शिवा क्षररूपादिप्रियान्वित सुन्दर साक्षि चगयत्रय स्वामी शिवा साम्ब सदा शिव शिवा साम्ब सदा शिव साम्ब सदा शिव साम्ब सदा शिव